चतुस्त्रिंशोऽध्यायः वैशंपायन उवाच स एव मुक्तस्तु महानुभावः सत्यव्रतो भीमसेन राजा अजातशत्रुस्तदनन्तरम् वै धैर्यान्वितो वाक्यमिदम् व भाषे युधिष्ठिर उवाच असंशयं भारत सत्यमे तद्यन्मान्तुदन् वाक्य शल्यै क्षिणोषि न प्रतिकूलमेव ममानयाधिव्यसनम् वा आगात् अहम् ह्यक्षानन्व पद्यञ्जिहेषन् राज्यम् स राष्ट्रम् धृतराष्ट्रस्य पुत्रात् तन्मांशकः पितवः प्रत्यदेबीत् सुयोधनाथम् सुबलस्य पुत्रः महामायश्चकुनिः स्पर्वति यः सभा मध्ये प्रवपन्न क्षपूगान् अमायिनम् मायया प्रत्यजयिषीत् ततोऽपश्यम् वृजिनम् भीमसेन अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलान् युजो युजश्च शक्त्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात् पुरुषस्य धैर्यम् यन्तु नात्मा शक्यते पौरुषेण मानेन वार्येण च तात नद्धः न द्रौपदीनः त्वञ्चापि तद्वेत्थ धनञ्जयश्च पुनर्दूतायागतानाम् सभान्नः यन्मा ब्रवीधृत राष्ट्रस्य पुत्र एकग्रहार्थम् भरतानाम् समक्षम् वने समा द्वादश राजपुत्रै यथा कामौ विदितम जात शत्रो अथापरञ्चाविदितञ्चरेथाः सर्वैः तात तथाचरन्तमवभोत्यन्ते भरतानाञ्चराश्च अन्यांशरे थास्तावस्त था पार्थ